भगवद्गीता चाप्टर् सेवन् वर्सस् वन् टु टेन् अध सप्तमोऽध्यायः श्रीभगवानुवाच मया सप्तमनात् पार्थयोगं युञ्जन्मदाश्रयः असंशयं समग्रं मां यदाज्ञास्यसि तच्छृणु ज्ञानं प्रेदं सवि ज्ञानमिदं वक्ष्याम्यशेषतः यज्ञात्वानेकभूयोऽन्यज्ञातव्यमवशिष्यदे मनुष्याणां सहस्रेषु कश्चिद्यदधि सिद्धये यतथामभिसिद्धानां कश्चिन्मां वेति तत्त्वतः भूमिरापो ननो वायुःखं मनो बुद्धिरेव च अहङ्कारयियं मे भिन्ना प्रकृतिरष्टधा अपरेयमितस्तुन्यां प्रकृतिं विद्धि मे पर महाबाहो ययेदं धार्यते जगत् ये दद्योनी भूतानि सर्वाणीत्युपधारय अहं कृष्णस्य जगदप्रभव प्रलयस्तथा मत्त परतरं नान्यत् किञ्चिदस्ति धनञ्जय मयि सूत्रे मणिगणा रसोऽहमप्सु कौन्देयप्रभास्मि शशिसूर्ययोः प्रणवः सर्ववेदेषु शब्दके पौरुषं नृषु पुण्यो गन्धक् पृथिव्याञ्जते जष्टास्मि विभावसौ जीवनं सर्वभूतेषु तपश्चास्मि तपस्विषु बीजं मां सर्वभूतानां विद्धिपार्थसनातनम् बुद्धिर्बुद्धिमदामस्मितेजस्तेजस्विनामहम् भगवद्गीता चाप्टर् सेवेन् वर्षस् सेवेन् टु 20 फलं बलवदां चाकं कामरागविवर्जितं धर्माविरुद्धो भूदेषु कामोऽस्मि भरदर्शभा ये चैव सात्विका भावा राजसास्तामसाश्च ये मत्तये वेदितान् विद्युनत्वहं तेषु देमयि त्रिभिर्गुणमयैवा वैरेभिः जगत् मोहितं नाभिजानादि मा मेभ्यः परमव्ययं दैवीह्येषा गुणमयी मम माया दुरत्यया मा वये प्रपद्यन्ते मायामेदान्तरन्दिदे न मां दुष्कृतिनो मूढा प्रपद्यन्ते नराधमाः माययापकृतज्ञाना आसुरं भावमाश्रिधा चतुर्विधा भजन्ते मां जना सुहृदिनोऽर्जुन आर्तो जिज्ञासुरार्थार्त्ये ज्ञानीजभरदर्शभा तेषां ज्ञानी नित्ययुक्तयेकभक्तिर्विशिष्यते प्रियो हि ज्ञानिनोत्यर्थमहं सगममप्रियः सर्वये वैदे ज्ञानीत्वात्मैव मे मदम् आस्ति तत्सहितात्मा मामेवानुतमां गतिम् बहूनां जन्मना मन्दे ज्ञानवान् मां प्रपद्यते वासुदेवः सर्वमिति स महात्मा सुदुर्लभः कामैस्तैस्तै तं तं नियममास्ताय भगवद्गीता चाप्टर् सेवन् वर्ष ट्वेण्टि वन् टु तर्टि यो यो यां यां तनुं भक्त श्रद्धयार्चितुमिच्छति तस्य तस्याचलां श्रद्धां तामेव विददाम्यहम् सदया श्रद्धया योक्तस्तस्याधनमीहदे लभजे च ततः कामान् मयैव विहितान् हितान् अन्धवस्तु बलं सद्भवत्यल्पमेदशाम् देवान् देवय सो यान्दि मद्वस्त्रायान्दि मामी अव्यस्त्रं व्यक्तिमा वन्नम् मन्यन् दे परम् भावमजानन्दो ममाव्ययमनुतमम् नाथम् प्रकाश सर्वस्य योगमायासमावृतः मूढोऽयम् लोगो मामजमव्ययम् वेदासम् समतीतानि वर्तमानानि चार्जुन भविष्याणि च भूतानि मां दुवेदन कश्चन इच्छाद्येष समुद्देन द्वन्द्वमोहेन भारत सर्वभूतानि सम्मोहम् स्वगेयान्धि परन्तप येषाम् त्वन्दगदम् पापम् जनानाम् ते े द्वन्द्वमोखनिर्मुक्त्रा भजन्ते माम् दृढव्रताः जरामरणमोक्षाय मामाश्रित्य यदञ्जिये ते ब्रह्म ते कृष्णमध्यात्मम् कर्म चाखिलम् साधि धिभूतादिदैवं मां साधि यज्ञम् च ये विदुः प्रयाणकाले दिश मां चे वि दुर्युक्षचेदसः ॐ तत्स इति श्रीमद्भगवद्गीतासूपनिषत्सु सप्तमोऽध्यायः